आ oh. oh. क्षयाय त्वा क्षयम् जन्म त्वर्माय त्वा धर्मे त्वादिवञ्जन्म सन्धयश्चन्दरक्षाय त्वान्तरिक्षम् जन्म प्रतिरसि त्वा प्रथिवे जन्म विष्टम् भातिभृष्टे त्वाष्टञ्जन्म क्षमाश्चेत् त्वार्जन्मा न वा जरात्रे त्वाराद्योभ्यत्वा जन्म प्रगेतो जन्म सुधीत्यभ्यस्तादित्या प्रजाभ्यस्ता प्रजापतो जन्मदेव जन्माभिजदसिग्रामेन्द्रायत्वेन्द्रं जन्माधिपजरसि प्राणायत्वात् प्राणं जन्मयन्तास्य पाणाय त्वा प्राणञ्जन्मत्त्वाधिकम् क्षे पा चिन्ब वयोधा अधिश्वात्राय त्वाश्वात्रम् जन्म त्रिवृदधि प्रवृदसि संवृतति विवृधति रोह दिने रोहो ति प्ररोहा को दिवेषिवस्य ृग् प्राजे ऋक्पदवस्ते देवाधिपदेनाम् प्रतिधत्तास्तमस्त्वास्त्वम पृथिव्यागश्रयत्वाद्यमुक्तमम् विषयत्सवन्तरं स्वामप्रदेशे ते दिना सम्राटिप्रदे जेरिकादित्यास्ते देवाधिपदयः सोमो हे तीनां प्रति सत्ता स्तोम पृथिव्याघर्षयतु मरत्वदेयमुक्थमव्यंसाम प्रदक्षत्यये स्मराढस्पदे जिविष्मेते वरुणो हे प्रदक्षेत्यामधिपदौ बृहस्पतिधत्ता तृणवत्रयस्त्रिपुंसौ त्वा स्वामो पृथिव्याकर्षयताम् वैश्वरेवाग्निमारुते अभ्यसयन्ते स्तभ्रेदान्तरिक्षा जनगर्या प्रथमजा देवे शिवो मात्रया वर्णा सन्तु विधत्ता काजमधिते त्वा सर्वेदम् विधानानाकस्य पृष्ठे लोके निशमानम् च साधयन्तु अयम् परो हर्येशः सौर्यस्तस्य रथगृहस्तस्य रथो जारेणानि ग्राम्योजस्थलाजस्थलादुधाना हेते रक्षाकुञ्जप्रहेतिरयम् दक्षिणा विश्वकर्मादस्य रथः स्वरश्च रथे चित्रश्चरेणानिग्रामण्यो मेन कादरः सरदौ धः पदवो हेजपौरुषेण तस्य रथप्रोतश्च समरश्च देनानि ग्राह्मण्योः प्रम्लोदं देदा सरदौ धर्पा हेतुर्व्याघ्रा प्रहेति रजमुत्तरात् सय्यदत्तस्य धृतेनश्च देनानि ग्रामण्यो विश्वादीतघृतादीतात् सरदा पापो हेदर्वाधप्रहेति रजमपर्यर्वाग्मधुत्तस्य देनानि ग्राह्मण्या छायामः विभूमते प्रभूमते यच्छतिमृगम् हरिवम् माहिगम् विश्वस्मै प्राणायपानाय व्यानायो दानाय प्रतिष्ठाय चरित्राय सूर्य स्वाभ्यात्मज्ञा स्वस्त्या सत्यता सन्तमेन ध्रुवासीदाोधन श्वोनवसे अविश्च न महः संवरणात्यस्था आरस्य पातो अनुपाति सोऽधस्पते व्रजनम् कृष्णमस्ते अग्निगुत्पतिः पृथिव्या अयम् अपागुम् जिन्वते कामग्ने पुष्कराजत्यश्वस्य बाधतः अयमज्ञस्य हस्तिनो वारस्वशस्पतिः ऊर्धा गवेरनेनाम् भवा यज्ञस्तिवाभिः यक्त्वाहम् अवस्थिधा जनानाम् प्रतिधेन विवायदेमुषासम् यक्वारिहप्रवजामुद्दिहाना प्रभा नवस्य श्रेपाकमच्च अवोचामखमलेटाय कृष्णे रविष्ठिरो नवसामग्नौ दिवीव रुग्नमुर्मिञ्च मश्रेत् जलस्य गोपाजनिष्टजाग्रविरग्नस्तु दक्षस्तु पिता घृतप्रदेको बृहदादिविस्पृशाद्युमद्विभाजिभरते भ्रु वने। ुःसह तस्पुत्रमङ्गिरः यज्ञस्य चेतम् प्रथमम् पुरोहितमज्ञम् मरत्रिरथश्चेदमिन्धे इन्द्रेण देवैः सरथकम् दण्डिहोताय यथा सुक्रतोश्रवस्तमहवन्ते विक्षुजन्तवः सोऽष्टे शम्पुरप्रजाग्नेहव्यायवोढवे स कायः सम्वः सम्यन्तस्तो मन्ताग्नरे परिशिष्ठायक्षिते नार्जोणप्रे सहस्मते सर्वम् समिज्ञे विश्वम् नमसोऽपातमाहुवे प्रियन्ते तिष्ठपरतज्ञस्मत्फलम् विश्वस्य दूतममतम् स योजते अरुणो विश्वभोजता सूद्रपत्स्वाहुतः सुब्रह्मा यज्ञस्य च मेपूनाम् देवगुणाथो अस्मै जादवेदो महिश्रवः स यथा नामकविरग्निरेणेरा रेवदस्मभ्यम् पूर्वणीरीतिः क्षतो राजन्मराज्ञेवस्तो ऋतोषः स जग्मजम्भरक्षतोदः प्रदे आदे अग्निधीमहिद्युमन्तम् देवाजनम् यद्ध स्यादेपदीयते समिद्दीनय त जेदज्ञस्तोतभ्याः आ ते अज्ञा हविः शुक्रस्य ज्योतिदस्पदे सुश्चन्द्रदस्पविश्वतृभ्याभर उभेदश्चन्द्रोदीराशने्यस्तोत्रभ्याभरपज्ञास्वर्णस्तोमेकोन्नभद्रगंहतिस्पृशम् तोहैः भद्रस्य दक्षस्य साधो रथे हृदस्य बृहतो बबू आविष्टे अद्य गेर्भिर्जनन्तोऽग्ने चाशे दिवो नस्तनयन्ति सुष्माभिर्नो अर्केर्भवानो अर्वान् सुभर्णज्योतिः रग्ने विश्वेभिः सुमन अनीकैः अग्निगुम्होतारम् मन्येतः सोनगु जातवेदम्भरो देवो देवाच्च कृपा घृतस्य विभ्राट्लिमशुक्रसोज आयुक्त्वानस्य सर्पितः अग्ने त्वन्नो अन्तमः उत प्रातः शिवो भवपरोक्षः सन्ताशोजष्ठजे दिवः सुंनाय नौ नमीमे सखेमश्रवाय या तैजायजायुर्गानि मेघयन्ते वर्षयन्ते च पुणीका नामादि प्रजापतिनात्मा विश्वाभिवृद्धेभिरुपदधामनुष्यास्ते गोतारान्तामहं प्रमद्या मरुदस्त्य गोत्तार तो स्यान्तामहम् प्रवद्येषा मे शर्म च वर्मजास्तु द्यौरपराजितामृतेणविष्टादित्यास्ते गोप्तारस्योर्जोवियत्तो स्यान्तामहम् प्रवद्येषा मे शर्म च वर्मजास्तु बृहस्पति स्वादे पृथिव्या पृष्ठे ज्योजस्पदे विश्वस्मै प्राणाय बाणाय विश्वंजोदरे यच्छाग्निस्तेऽधिपतिर्विश्वकर्मा त्वादय त्वन्दे ज्योजस्पदे विश्वस्मै प्राणायपानाय यच्छ स्त्री पुरोध्रसविरति विद्युत्सनिरति वृष्टिन्यवानामग्ने जान्यधिवायोन्यत् देवानां वायोजान्यस्त्यन्तरिक्षस्य यान्येवानामन्तरिक्षजान्यस्यन्तरिक्षमस्त्यन्तरिक्षाय त्वा सनि सम्यगाय त्वा सतीगाय त्वाकेताय त्वा प्रदेत्वा दिवस्पदेत्वादिव े त्वार्जे त्वा भाचे त्वाज्योतिषे त्वायषोदान् पायषोदान् त्वाशिपयोदान् पापय शिवच्चोदान् त्वान् त्वाद्रविणेतादया पिजेनः ब्रह्मनाथया देवतया गिरस्पद्रुमासीज भो यः शिवरिभस्कृतसि प्राच्यस्योद्भास्यन्तरिक्षतस्यन्तरिक्षय सेधाय नसरतिधाकलशि पृथिव्या स्वाविनेतादयाम् न्यन्तरिक्षस्य त्वा द्रिविणे चादयामि जिवस्पा द्रिविणे दादयामि दिशान्ता द्रिविणे चादयामि द्रविणोदान्ता ने दादयामि प्राणम् मे भाट्यमाणम् मे पाहि ज्ञानम् मे पायम् मे पाहि विश्वायुम् मे वाहि सर्वायम् मे भाट्यज्ञेय ते पा बृह्णामता मे गजगौरभावय पाञ्चजन्य स्वेया माया वादे वाहो मा सद्दः सकरः सुमेकः अग्निना विश्वासा सौर्येण स्मराट् कर्त्वादर्पश्चा यज्ञेन मघवान् दक्षिणया तु भर्गो मञ्जुना वृत्रहादौहाेन गज प्रथिव्यातनो दर्भिरन्नादो वषट्कारेण सां नातनोपा विराजान् ब्रह्मणा गोमपा गोभिर्यज्ञन्दाधारक्षत्रेण मनुष्यानश्व ष्टपदानादिष्टः सो यः सन्तनोभिः ृत्या विष्ट आसादितो नरन्ध्यमानोऽधिपनिरागतः प्रजापतिप्रणेयमानाग्निराज्ञे बृहस्पतिराज्ञे प्रणेयमान इन्द्रो हविद्धा नेरासादितो विष्टरुपावक्रिय ेर्मे दृष्णेर्महेश्वहृत वायुरावृत्त निचक्षापृच्छात भक्षागत पितृणांसुदात्तस्यन्धुरवृतमप्रया सर्वत्रवगतस्तरिण प्रप्लुतः सुभृदुजङ्गतः मृत्तिका नक्षत्रमग्निर्देवताग्नेतस्थ प्रजापतेर्जातस्वामश्चेत्त्वा विजयत्वा विजय त्वा भाते त्वा ज्योतिषे त्वाष्यक्षत्रौ सोमो देवता नक्षत्रकौ रुद्रो देवता नक्षत्रगं भेवता मघा नक्षत्रम् पितरो देवता फल्कुने नक्षत्रमर्यवा देवता फल्कुने नक्षत्रम् भगो देवता हस्तो नक्षत्रगं दविता देवता चित्रा नक्षत्रमिन्द्रो देवता स्वाते नक्षत्रम् वायुर्देवता विचखे नक्षत्रं पित्रो देवतारोहिनी नक्षत्रमिन्द्रो देवता वितरो नक्षत्रम् पितरो शाधा नक्षत्रमावो देवता शाढा नक्षत्र विश्वे देव देवता सोणा नक्षत्रं विष्णद्देवता श्रमिष्ठा नक्षत्रं वसवो देवता देवता नक्षत्र बुद्ध्यो देवता देवते नक्षत्रम् पूषा देवतास्विनो नक्षत्रमश्विनौ देवतापभरणे नक्षत्रम् यमो देवतापोर्णा पश्चाद्यच्च देवा अदधुः मधुश्च माधवश्च मादन्तिका मृतोश्च ग्रेत्मा मृतो नभश्च न भस्यश्च वारणिका मृतो विरश्च शारदा मृतोतहश्च न हस्तश्च हैवन्तिका मृतोतपश्चन वस्त्यश्चिरा मृतोमग्नेरन्तस्नेतो जगल्पेता कल्पन्तामा वोषधे कल्पन्तामग्नयः प्रथन्मज्जेच्छागतम् प्रदाेन्त वा पृथिवे शैशिरावृतो अभिकल्पमाना इन्द्रमिव देवा अभिगम्भिषन्तु संयश्च प्रदेताश्चाग्ने सोमस्य सौर्यस्यग्राजभि च पितृणा यवस्येन्द्रस्य ध्रुवाज पृथिवे च धैत्रे च मित्राया प्रतिमा अभि सहस्रस्यहस्रस्योन्मा अधिसहस्राजमाग्नयस्त ेकादशतञ्च सहस्रं चायदं च लीतञ्च प्रेतम् चार्बुदं चुदं च समुद्रश्च मध्यं चाञ्च पदाश्चे वा मे अग्नयष्प्रकाधेनवः सन्त शतसहस्रमक्षीयमानार्गस्थावृतो मधुस्तुतमोर्जस्पतेष्पधा विने स्ता मे अग्नयष्प्रकाधेनवः सन्त विराजो नाम का मधुधा अमुत्रामुष्ण्यल्लोके मिद्विषा मातया तस्तु वर्मिन्मधो रथो मार्धवः पात्वस्मान् अग्निर्देवो दुष्करे दुरदाभ्य इदम् क्षत्रगौ रक्षतुपा त्वस्मान् कथन्तरगौ सामभिपा त्वस्मान् गायत्री छन्दसाम् विश्वरूपा प्रकृणाविष्ठया समुद्रो भात उग्रादिशामभिः शुक्रे अहन्यो यसीनाः इन्द्राधिपत्यक्षत्रम् विष्पतो धारणेन रहत्सामक्षत्रभद्वृद्धविष्यम् दृत्वभोजितमुग्रवीरम् इन्द्रस्तोगेन पञ्चदशेन मध्यमिदम् वातेन सगरेण रक्षा प्राचे निशागम् रहयषा यशस्वति विश्वे देवाः प्रावृषान्नागुम् सुवर्वती इदम् क्षत्रम् दष्टभस्तो जोनाधिष्टगम् रहसिजगम् रहस्पति वैगोपे धावन्विहदर्छके पञ्जगत्येन विश्वे देवाः सप्तदशेन वर्तमिदम् क्षत्रगम् दविलवादमुग्राम् भद्रे दिशाम् क्षत्रमिदन्दाभालोपस्थासानाम् मित्रभदस्तोजः मित्रा वरुणा सरदान्धाञ्चकित्रो अस्मैरात्रायिशर्म यच्छदम् वैराजेधान्नधिवेमनेशानष्टुभासम्भृतम् ये सह क्षत्रम् मित्रवदात्तदा नमित्रा वरुणारक्षतपाधिपत्यैः सम्राज्यम् सहसाहस्पत्कृतन्दामिष्ठयानपिभतो अपस्य पाता बृहतेर्नुषक्पदे धृताखानयस्पते दिशाम् देव्यपतनो धृता चेः सङ्गोपाः पुरजेतोतपश्चात् बृहस्पतेवाचम् ओर्ध्वादिशागुम् रन्दिराजौषधीनागुम्भे अह्नाः वत्साधिच्छन्दा छन्दो जातशत्रु स्यो नानो अस्तु सोमस्त्रयस्त्रिपुंसे भुवनस्य पत्नीश्वरस्वद्वादे अभिनवघृणाहि धृतपदेशपितलाधिपत्ते पयस्पते रन्दिराशानो अस्तु ध्रुवादिशाम् विष्णुपत्न्यघोरःस्तेषा नासहसो मनोता बृहस्पजम् वा नयशोत वायः सन्धुवाना वाता अभिनो गृणन्त पृष्टम् भो दिवो धर्म पृथिव्या हैश्वानरो न भूत्या पृष्ठोऽधिभ्यनुभ्यानुपतिरन्विदमने त्वङ्कयानश्चित्रापमतोयुङ्क्ते ओ